हरिओम श्री सीताचंद्रभ्या अथ श्रीमद वाल्मीकि अयोध्या कांडी एकाश है निषाद राज्य विलाप है राजे विला तम जागृत अलंबे नातुर्थय लक्ष्मण गुह सन्ताप सत राघव वाक्य ब्रुवी य तदर्थम् उपकल्पितः पत्याश्वः साध्यस्तम् राजपुत्र यथासुखं सुखम् उचितो यं जनः सर्वे केशानां तं सुखोचितः गुप्त्यर्थं जागरिष्याम काकुत्सस्य वशं निजाम नहि रामा प्रियतमो ममास्ते भुवि कश्चन भविम्येव से सत्येनैव च ते शपे अस्य प्रासाददाशंसे लोकेऽस्मिन् सुमद्य च धर्मावाप्तिं च विपुलाम् अथ च पुष्करौ सोऽहं प्रिय सुखं रामं शयानं सह सीताय रक्षिष्यामि धनुष्पाणि सर्वथा ज्ञातिभिः सह न मे अस्ति अभिजितं वनेऽस्मिन् चरचर चतुरङ्गम् यतिबलम् सुमरे महि लक्ष्मणस्तु तदोवाच रक्ष्यमाणा स्वीता वयं सर्वे धर्मम् देवानुपश्यत कथं दाश रथो भूमौ स्वयाने सह सीतया शक्या निद्रा लब्धुम् जीवितं वा सुखानि वा यो न देवासुरैः सर्वैः शक्य प्रसहितुं युधि सम्पश्य सुखसंसुप्तं तृशैषु तृणैषु सह सीतय यो मन्त्र तपसा लब्धो विविधै च पराक्रमे एकोदशेष पुत्र सदृशलक्षणः अस्मिन् प्रभ्रजिते राजा न चिरम् वर्तयिष्यति विधवा मेदिने नूनम् क्षिप्रम् बह भविष्यति विनद्यः सुमहानादं श्रमेणोपरतास्य निर्घोषोपरतं तात् मन्दे राजनिवेशनम् कौसल्या चैव राजा च तथैव जननिमम् नाशंस यद् जीवन्ति सर्वे ते शर्वरिमिमाम् जीवेदपि हि मे वाता शत्रुघ्नस्यान्ध वीक्ष्य तद् दुःखम् यदि कौसल्य वीरतुर्विनशिष्यति अनुरक्तः सुखालोक प्रियावः राज विस्नुसंसृष्ट सा विनशिष्यति कथं पुत्रम् आत्मारम् चेश्च पुत्रम् अपश्यतः शरीरम् प्राणाराज्ञो महत्मनः विनश्ये इन्द्रपतो पश्चात कौसल्या विनशिष्यति अनन्तरं च मातापि मम नाशमुपैषति अतिक्रान्तम् अतिक्रान्तम् अनवाप्य मनोरथम् राज्ये रामम् निक्षिप्य पिता मे विनशिष्यति सिद्धार्थापि पितरं वृत्तम् तस्मिन् काले ह्युपस्थिते प्रेतकार्येषु सर्वेषु संस्करिष्यन्ति राघवम् रम्य चत्वर संस्थानां संविभक्तं महपथम् हर्म्य प्रासाद सम्पन्नं गणिका वर्षोभितम् तथाश्व तुर्यनाद निनासितम् सर्वकल्याण दुष्ट पुष्ट जनकुला आराम सजोत्सवशालिनी सुखिताचरीश्य राजधानी पिता अभी जीव दशरथ वनवास पुनर्व प्रत्यागम्य महात्मा अभी पशा सुव्रत अच्छे सार्धं कौशलिना वयं निवृत्ते वनवासेऽस्मिन् अयोध्यां प्रविशे महि परिते वयमानस्य दुःखात् तस्य महात्मने त्रिशतो राजपुत्रस्य शर्वरी तस्य तथा हि सत्यम् ब्रवती प्रयाहिते नरेन्द्र सो नो गुरुसौरु भाष्पं वचना विपीडित गरा तु नागैव व्यथातुरे इत्याचि श्रीमद् रामायणे वाल्मीकि अधिकारी अयोध्या काण्डे एकपञ्च सर्ग